श्रीहरये नमः अथ सप्तषष्टितमोऽध्यायः राजोवाच भूयोऽहं श्रोतुमिच्छामि रामस्याद्भुतकर्मणः अनन्तस्याप्रमेयस्य यदन्यत्कृतवान् प्रभुः श्रीशुक नरकस्य स कच्चिद्विवितो नाम सुग्रीवसः शिव शोतभ्राता मैन्दस्य वीर्यवान् कुर्वन् वानरो राष्ट्रविप्लवं पुरग्रामाकरान् घोषानदहद्वग्निम् उत्सृजन् क्वचित् स शैलानुत्पाट्य दैर्देशान् समसूर्णयत् आनर्तान् यत्रास्ते मित्रहा हरिहे क्वचित् समुद्रमध्यस्थो दोर्व्याम् उत्क्षिप्य धज्जलं देशान्नाकयुत प्राणो वेलाकूलानमज्जयत् आश्रमान् ऋषिमुख्यानां कृत्वा भग्नवनस्पते अदूषय चक्रुर् मूत्रै अग्नीन् वैतानिकान् कलहान् पुरुषान् योषितो धृप्त क्षमा भ्रोणी गुहासु सहा निषिप्य चाप्यधात् शैलै पेशिष्कारीव कीटकम् कुलस्त्रियः श्रुत्वा सुललितम् गीतं गिरिं रैवतकं तत्रापश्यत्य धुपतिं रामं पुष्करमालिनं सुदर्शनीय सर्वाङ्गं ललनायुतमद्यघं गायन्तं वारुणीं पीत्वा विब्राजमानं विभ्राजमानं बभुषा प्रभिन्नमिव वारणं किल किला शब्दमात्मानं सम्प्रदर्शयन् तस्य धार्ष्ट्यं कपेर्वीक्ष तरुण्यो जाति चापलाः हास्यप्रिया विजहसोर्बलदेव ताहेलयामास कपेर्ब्रूषेपै सम्मुखादिभिः दर्शयन् स्वगुतं तासां रामस्य च निरीक्षतः तं ग्राम्णा बलप्रहरताम्बरः स वञ्चयित्वा नम, लसं कपिहे गृहीत्वा केलयामास धूर्तस्थं कोपयन्सन् निर्भित्य कलसं दुष्टो वासां स्यात्पलायत् बलं कतर्तीकृत्य बलवान् विप्रचक्रे मधोद्धतः तं तस्याविनयं दृष्ट्वा देशां च गृद्धो मुसलमाधत्त हलं चारि जिगांसयां द्विविधोऽपि महावीर्यशालमद्यम्यपाणिना अभ्येत्य तरसा तेन बलं मूर्धनि अताटयत् तं तु सङ्कर्षणो मूर्ति पतन्तमचलोयत प्रति जग्राह बलवान् सुनन्देनाहनच्छतं मुसलाखतमत्तिष्को विरजे रक्तधारया गिरिर्यथा गैरिकया प्रकारं नानुचिन्तयन् पुनरन्यं समुत्क्षिप्य कृत्वा निष्पत्रमोझसा तेनाखनत्सु सङ्क्रद्धस्तम्बलस्तदधा चिनत् ततोऽन्येन रुषा एवं युद्धन् भगवता भग्ने भग्ने पुनः पुनः आकृष्य सर्वतो वृषान् निर्वृषम् अकरोध्वनं ततो मुञ्चिलावर्षं बलस्योपर्यमर्शितः तत्सर्वं सूर्णया मासलीलया मुसलायुधः सभागूतालसङ्कासौ मुष्टीकृत्य कपीश्वरः अस्याद्यरोहिणी पुत्रं ताभ्यां वक्षस्य रुरुजद यादवेन्द्रोऽपि तं दूर्भ्यां त्यक्त्वा मुसललाङ्गले जत्रावभ्यर्धयत्क्रद्ध सोपत रुधिरं चकम्बे तेन पतता शटङ्कः स वनस्पतिः पर्वतः कुरु सार्धूलवायुना नौरिवाम्भसि जयसब्धो नमः सब्धः साधु साध्वितिशाम्भरे सुरसिद्धमुनीन्द्राणाम् आसीत्कुसुमवर्षिणां एवं निहत्य द्विविधं संस्तूयमानो भगवान् जनैः स्वपुरमाविशत् इति श्रीमद्भागवते महापुराणे दशमस्कन्ते उत्तरार्ते द्विविधवधो द्विविधवधो नाम सप्तषष्टिमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द